परं श्रेयः पाण्डवेयामयोक्तं न मे तच्च श्रुतवानाम्बिकेयः यथा तुरस्येव हि पथ्यमन्नं जातशत्रो स्त्रीश्रोत्रियस्येव गृहे प्रदुष्टा ध्रुवं न रोचेद्भरतर्षभस्या पतिः इव षष्टिवर्षः ध्रुवं विनाशो नृपगौरवाणां न वै परैति यथा च पर्णे पुष्करस्यावसिक्तम् जलं न तिष्ठेत् पथ्यमुक्तं तथास्मिन् ततः क्रुद्धो धृतराष्ट्रो यस्मिन् श्रद्धा भारत नाहं भूयः सहायं सहायम् महीमिमां पालयितुं पुरं वा सोऽहं त्यक्तो धृतराष्ट्रेण राज्ञा प्रशासितुं त्वामुपयातो नरेन्द्र तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत् प्रवक्ष्यामि भूयः क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन् कालमुपासते संवर्धयन् स्तोकमिवाग्निमात्मवान् स वै भुङ्क्ते पृथिवीमेक एव वसुराजन् सहायैस्तस्य दुःखेऽप्यंशभाजः सहायाः सहायानामेष सङ्ग्रहणेऽध्युपायः सहायाप्तौ पृथिवीप्राप्तिमाहुः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 इति श्रीमहाभारते वनपर्वणि अरण्यपर्वणि विदुरनिर्वासे पञ्चमोऽध्यायः